नारदपुराणं पूर्वार्थम् अध्यायम् 86 सनत्कुमार उवाच सरस्वत्यवतारास्ते कथिता सिद्धिदा नृणाम् अधलक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान् वाणी मन्मदशक्दाख्यं बीजत्रुदयमीरिदम् ऋषि स्याद्दक्षिणामूर्तिः पङ्क्तिश्चन्तः प्रकीर्तितम् देवदात्रिपुरा बाला मध्यान्ते शक्रिबीचके नाभेरापादमद्यम् तु नाभ्यन्तम् हृदयात् परम् ह्रदं तम् तर्तीयम् क्रमाद्देहेषु विन्यसेद् आद्यं वामकरे दक्षकरे सदुभयो परम् पुनर्बीजत्रयं न्यस्य मूर्ध्नि गुह्ये च वक्षसि नवयोन्पाग्भिधं न्यासे नवकृत्वो मनुन्यसेद भूके कर्णयोश्चिबुके न्यस्येच्छङ्कयोर्मुखपङ्कजे नेत्रयोर्नासिकायां च स्कन्धयोरुदरे तथा न्यस्येत् कूर्परयोर्नाभौ जह्नुनोर्लिङ्गमस्तके पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः स्तनयो कण्ठदेशे वामांगा वामाङ्गादिशु विन्यसेद वाग्भवाद्यां हृदिं गुह्ये प्रीतिमत्यादिकां हृदि काम कामबीजातिकान् पश्येद् भूमध्येतु मनोभवाम् पुनर्वागकात्ममाद्यास्तिस्र एव च विन्यसेद अमृतेशीं च योगी योगेशीं विश्वयोनिं तृतीयकम् मूर्ध्निं वक्त्रे हृदिन्यस्येत् कामेशी पञ्चबीजाढ्यां स्मरात् पञ्चन्यस्येत्क्रमाद मायाकामौ च वाग्लक्ष्मी कामेशी पञ्चबीचकं मनो भवश्च मन्मथा। काम देवस्मरपञ्चकीर्तितान्या सिद्धिताः शिरः पत् शिरःपन्मुखगुह्येषु हृदये बाणदेवताः द्राविण्याध्याक्रमान्य सेद्वाणेशीबीजपूर्वकः दाद्रीं क्लीं जूं स इति वैबाणे शबीचकं चकं द्राविणी क्षोभिणी वशी करण्यां कर्षणी तधा सम्मोहनी च बाणानां देवदाः पञ्चकीर्तिताः तार्तीयवाग्मध्यगेन कामेन स्यात् षडङ्कम् षड्दीर्घस्वरयुक्तेन ततो देवीं विचिन्तयेत् ध्यायेद् रक्तसरोजस्तां रक्तवस्त्रां त्रिलोचनम् उद्यदर्कनिभां विद्यां मालाभयवरोद्वहां लक्षत्रयं जपेन्मन्त्रं दशांशम् किं शुकोद्भवैः पुष्पैर्खयारिजैर्वापि जुहुयान् मधुरान्वितैः न वयोन्यात्मकं यन्त्रं बहिरष्टदलावृतं केसरेषु स्वरान्यस्येद्वर्गनष्टौ दलेष्वपि दलाग्रेषु त्रिशूलानि पद्मत् तु मातृकवृतं एवं तु विलिखिते यन्त्रे पीठशक्तिः प्रपूजयेद इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी रदिरदि प्रियानन्दा मनोन्मन्यपि चोदिताः पीठशक्तिरिमा तिष्ठ्वा पीठं तन्मनुना दिशेत् व्योमपूर्वेदुतार्तीयं सदाशिवमहापदम् प्रेदपद्मसनं गेन्दं नमोन्दः पीडमन्त्रकः षोडशार्णस्तदो मूर्तौ तृप्तायां मूलमन्त्रतः आवाह्य प्रजपे देवीमुपचार्यैः पृथग्विधैः देवीमिष्ट्वा मध्य यो नौ त्रिकोणे रदि पूर्विकां वामकोणेरतिं दक्षे प्रीधिमग्रे मनोभवां योऽन्यन्तर्वह्निकोणा दवङ्गान्यग्नेर्विदिक्ष्वपि मध्ययोर्मेर्हहि पूर्वादिषु चाग्रे स्मरानपि वाणदेवीस्तद्वदेव चक्रिरष्टसुयोनिषु शुभभाग्या भागा पश्चात्तृतीया भगसर्पिणी भगमाला तथा नङ्गा कुसुमापरा अनङ्गमे कलानङ्गमदनेत्यष्टशक्तयः पद्मके शरगाब्राह्मी मुखा पत्रेषु भैरवाः दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्चाष्टभैरवाः दलाग्रेष्वष्टपीठानि कामरूपाख्यमादिमं मलयं कोल्लगिर्याख्यं चौहाराख्यं कुलान्तकं जालन्धरं तथोन्नासं कोडपीठमधाष्टमं भूगृहे दश दिक्षु अर्चेद्धेदुकं त्रिपुरान्तकं वैतालमग्निजिह्वं च कमलान्तकालिनौ एकपादं भीमरूपं विमलं हाडगेश्वरं शक्राद्यानायुधै सार्धं स्वस्वदिक्षु समर्चयेद। तद्बहिर्दिक्षुबटुकं योगिनीं क्षेत्रनायकं गणेशं विदिशा स्वर्चेद्वसून् सूर्याच्छिवांस्तथा भूदांश्चेद्धं भजन् बालामीशस्याद्धनविद्ययोः सर्षपैर राज वृक्षै पाडल वश्याुःसर्षपैर्नृपाः पुष्पैर बिल्वभलैर पुष्पैर्बिल्वफलैर्वापि हो माल्लक्ष्मी स्थिरा अपमृत्यम अपमृत्युं जयेन्मन्त्री गुडूच्या यदोक्त दुग्धयुक्तयाथोक्त दूर्वाहोमेन नीरो गायुश् संश्ु ज्ञान कविव लंद्र गुरसुरहुद्वाक्सीना सुरभिक्षीर दध्याल्लज्जान् धुर सुरभिक्षीर दद्यल्लाजान् हुत्वा रुजो जयेद कर्चूरा, गुरुरोचनाः चन्दनं केशर मां सीं क्रमद्भागै नियोञ्जयेद् निं योजयेद भूमि चन्द्रैकनन्दाब्धिदिसप्तनिगमोन्मितैः श्मशाने कृष्मभूतस्य निशिनिहरपाधसा कुमार्या पेषयेत्तानि मन्त्रेणादाभिमन्त्र्य च विदध्या तिलकं तेन दर्शनाद्वशयेज्जनान् गजसिंहादिभूतानि राक्षसाकिनीरपि प्रयोजनानां सिद्ध्यैदु देव्याः शापं निवर्त्य च जबमस्य समाचरेद योज्यपे दादिमे बीजे वराह भृगुपावकान् मध्यमादौ नभो हंसौ मध्यमान्दे धुपावकम् आदावन्दे च धूम्रकेतनं एवं जत्वा शतं विद्या शापहीनाफलप्रदा यद्वाद्ये च रमे बीजे नैव रेफं वियोजयेद शापोद्धारप्रकारोऽन्यो यद्वायं कीर्तितो बुधैः आद्यमाद्यं हि तार्तीयं कामः कामोदवाग्भवम् अत्यन्ध्यमद्धमनं गच्छ न वार्णकीर्तितो मनुः जप्तोऽयं शतधा शापं बालाय विनिवर्तयेद चैतन्याह्लादिनू मन्त्रौ जप्तौ निष्कीलताकरौ त्रिस्वराश्चेतनं मन्त्रीधरशान्तिरनुग्रहः तारादिहृदयान्दस्यात्काम आह्लादिनीमनुः तधात्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः सुदीप्तानि विधयादौ जपेतानीष्टसिद्धये वदयुग्मं सदीर्घाम्बुस्मृतिवालावनङ्गदौ सत्यसंनेत्रो नस्ता दृग्वा वाग्वर्णाद्य दीपिनि क्लिन्ने क्लेदिनि वैकुण्ठो दीर्घं स्वं सद्य गोमति महानिद्रा सचन्द्रा कुर्वेदशिवर्णा मध्यदीपिनि तारमोक्षं च कुरु नायं वर्णास्य दीपिनी दीपिनि मन्दरा बाला साधितापि न सिध्यदि वा प्रजये प्रजयेदरीणाक्षोभहेदवे कामवागंत्यबीजानि त्रैलोक्यस्य वशीकृतौ कामान्द्यवाणि बीजानि मुक्तये नियतो जपेद पूजारम्भेदु बालाया स्त्रिविधानार्चयेद्गुरून् दिव्यौकश्चैव सिद्धौको मानवौक इदि त्रिदा परप्रकाशपरमे शानः परशिवस्तथा कमेश्वरस्तदो मोक्षः षष्ठकामो मृदोऽमः यदे दत्तैव दिव्यौख आनन्दपदपश्चिमाः ईशानाख्यस्तत्पुरुषो कोराख्यो वामदेवकः सद्यो जात इमे पञ्चसिद्धौदाख्या स्मृता मुनि मानवौकापरिज्ञेया स्वगुरोसम्प्रदायतः नवयोन्यात्मकेयन्त्रे विलिखेन्मध्ययोनिधः दक्षिण्येन बीजानि त्रिवारं साधकोत्तमः स्त्रीं स्त्रीन्वर्णांस्तु गायत्र्या अष्टपत्रेषु संलिखेद बहिर्मातृकया वेष्ट्य तद्बहिर्भूपुरद्वयं कामबीजलसत्कोणव्यधिभिन्नं परस्परं पत्रे त्रयीपुरमाख्यातम् जप संपाद साधितं बहुना विधृते दध्या कीर्तिं सुखं सुधान् कामान्धे त्रिपुरा देवी कविष्यं कविशं बहिं बघकङ्गी समायूढसनेत्रोऽघ्निश्च तत्र क्लिन्ने प्रचोदान्ते या दित्ये शा प्रकीर्तिदा गायत्री त्रयीपुरा सर्सिद्धिदा सुरसेविदा अधलक्ष्म्यवतारोण्यकीर्त्यदे सिद्धिदो नृणां वेदादिर्गिरिजापद्मामन्यो हृदयं भृगुः भगवति माहेश्वरी ङेन्द्रेन्नपूर्णे दहनाङ्गना प्रोक्ता विंशतिवर्णेयं विद्या स्याद्रुकिणो मुनिः धृतिश्चन्दोन्नपूर्णेशीदेवता परिकीर्तिदा षड् दीर्घाढ्येन कृल्लेखा बीजेन स्यात् मुखनासाक्षिकर्णां सगुदेषु नवशून्यसेद पदानि तव तद्वर्णसङ्ख्ये दानीमुदीर्यदे भूमि चन्द्रधरैकाक्षिवेदाब्धियुगबाहुभिः पदसङ्ख्यामिदवर्णैस्ततोऽध्याये सुरेश्वरीम् स्वर्णाभागां त्रिनयनां वस्त्रालङ्कारशोभिदां भूरमासंयुधां देवीं स्वर्णामत्रकराम्बुजं लक्षं जपोयुधं होमो कृदाचरुणा तदा जयादिनवशक्तपीठे पूजा समीरिदा त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके भूपुरेण युधेयन्द्रे पदज्ञान्माययामनुम् अग्न्यादिकोणतृदये शिववारागमाधवान् आचर्यये स्वमन्त्रैस्तु प्रोच्यन्ते मनवस्तु ते प्रणवो मनुचन्द्राढ्यं गगनं हृदयं शिवा मारुदशिवं मन्त्रोऽयं सप्तर्णशिवपूजने वाराहनारायणयोर्मन्त्रौ पूर्वमुदीरयेत् षडङ्गानि तदोऽभ्यर्च्य वामे दक्षे धरां प्रमां यजे स्वस्वमनुभ्यां दूता मुनीश्वर अन्नं मह्यन्नमित्युक्त्वा मे देह्यन्नाधिपोर्णकाः नये ममन्नं प्राणान्ते दापयानलसुन्दरी द्वाविंशत्यक्षरो मन्त्रो भूमिष्ठौ भूमिसम्पुडः श्रीपुडो विप्रस्त लभनु नृधिर्लभनुचन्द्रयुग भुवो बीजमिति प्रोक्तं श्रीबीजं प्रागुदाहृदं मन्द्रादिष्टचतुर्बीज पूर्विकाक् परिपूजयेत् शक्तिश्चदस्रो वेदाश्रे परा भुवनेश्वरी कमलासुभगा च दिभ्राह्द्या अष्ट पत्रगाः षोडशारे स्मृते च वनदादुष्टिपुष्टयः प्रीतिरदिर्निश्रीश्चाभिस्वधा स्वाहा दशम्यधा ज्योत्स्ना हैमवदि छायापूर्णिमा अमावास्ये अमावास्येति सम्पूज्य मन्त्रेश्ये प्राणपूर्विका भूपुरे लोकपाला स्युस्तदस्त्राणि तदग्रदः इद्धं जपादिभिः सिद्धे मन्त्रेऽस्मिन् धनशं च यैः कुबेरसदृशो मन्त्री चन्द्रभूषिताः बगलामुखसर्वान्दे इन्दिकाह्रादिनीयुधा पीता जरायुक्प्रदिष्टा पुनर्दीर्धोदसंयुता वाचं मुखं पदं स्तम्भ यान्दे जिह्वा पदं वदेद कीलयेति जबुद्धिं विनाश स्वबीचकम् रोग्निसुन्दरी मंद्रो बगलाया प्रकीर्तितः मुनिस्तु नारदश्चन्दो बृहदी बगलामुखी देवदा नेत्र पञ्चेषु नव पञ्च दिग्गर्णकैः अङ्गानि कल्पयित्वा च ध्यायेत् पीताम्बरां तदः स्वर्णासनस्तां हेमाभां स्तम्भिनीमिन्दुशेखरां दधतीं दा मुद्गरं पाशं वज्रं च रसनां करैः एवं ध्यात्वा जपेर्लक्ष्मयुधं चम्पकोद्भवैः कुसुमैर्ज्युहूयात्पीढे बालाया दिमान् चन्दना गुरुचन्द्राध्यै पूजार्थं चन्द्रमालिकेद त्रिकोण षड् दलाष्टास्रषोडचारे यजेदिमां मङ्गलास्तम्भिनी चैव जृम्भिणि मोहिनी तदा वश्याचला बलकाजभूधरा कल्मषाभिधा धात्री च कलनकालकर्षिणी भ्रामिकापि च मदङ्गापि च भोगस्ता भाविका षोडशी स्मृता भृगृहसच्य भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमाद गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् इन्द्रादींश्च तदो बह्य निजायुधः सिद्धं सिद्धे मनौ मं त्रीस्तम्भये देवदाधिकान् पीदवस्त्रपदासीनः पीदमाल्यानुलेपनः पीदपुष्पैर्यजे देवीं हरिद्रोद्धस्रजा जपेद पीदां ध्यायन् भगवतीं पयो मध्ये युधं जपेद त्रिमध्वाज्यतिलैर्होमो नृणां वश्यकरो मदः मधुरत्रदयाकृतैः स्यादाकर्षो लवणैर्ध्रुवं ध्रुवं तैलाभ्यकृतैर्निम्बपत्रैर्होमो विद्वेषकारकः ताललोणहरिद्राभिर्द्विषां संस्तम्भनं भवेद आगारधूमं राजीश्च माघिषं गुगुलं निशी स्मशाने पावके हुत्वा नशयेदचिरादरीन् गरुदो गृध्रकानां कडुतैलं विभीतकं गृहधूमम् चिदा वह्नौ हुत्वा प्रोच्चाडये द्विपून् दुवार्गुडुचीलाजान्ये मधुरहृदयान्विदान् जुहो दिसोऽखिलान् रोगान् समये दर्शनादपि पर्वताग्रे महारण्ये संगे शिवालये ब्रह्मचर्यरथो लक्षं जपेदखिलसिद्धये एकवर्णगविदुग्धं शर्करामधुसंयुतं त्रिशतं मन्त्रितं पेदं हन्याद्विषपराभवं श्वेतपालश काष्ठेन रचिते रम्यपादके अलक्तरञ्चिते लक्षं मन्त्रयेन्मनुनामुना तदारूढः पुमान् गच्छक्षणेन शतयोजनं पारदं च शिलां तालं पिष्ठं मधुसमन्वितं मनुना मन्त्रयेल्लक्ष्यं लिम्बे तेनाखिलां तनुम् अदृश्यस्यान्नृणामेष आश्चर्यं दृश्यदामिदं षड्कोणम् विलिखबीजं साध्यनामान्वितं मनोः हरितालनिशचूर्णैरुन्मत्तन्मतुरससंयुतैः शेषाक्षरैसमानिदं तरागेहविराजितं तद्यन्त्रं स्थापितप्राणं पीदसूत्रेण वेष्टयेद भ्राम्यत् कुलालचक्रस्तां गृहीत्वा मृत्तिकां तथा रचये दृषभं रम्यं यन्त्रं तन्मध्यतः क्षिपेद् हरितालेन संलिप्य वृषं प्रत्यहमर्चयेद् स्तम्भये द्वि द्वेषां वाचं गतिं कार्यपरम्पराम् आदाय वामहस्तेन प्रेदभूस्थितकर्परम् अङ्गारेण चितास्तेन तत्र यन्त्रं समालिखेद मन्त्रितं निहितं भूमौ त्रिपूणां स्तम्भयेद्गतिं प्रेदवस्त्रे लिखेद्यन्तम् अङ्गारेणैव तत्पुनः मण्डूकवदने न्यस्येत्पीतसूत्रेण वेष्ठितं पूजितं पेद पुष्पैस्तद्वाजं संस्तम्भयेद्विषां यद्भूमौ भविता दिव्यं यत्र यन्त्रं समालिखेद मार्जितं तद्विषां पात्रैर्दिव्यैस्तम्भनकृद् भवेद इन्द्रवारुणिकामूलं सप्तशो मनुमन्ध्रिदम् क्षिप्तं जले दिव्यकृतं जलस्तम्भनकारकम् किम्बुक्त्या साधकेन मन्त्रः सम्यगुपासितः शत्रॄणां गद्दि बुद्ध्यादे स्तम्भनो नात्र संशयः इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दक्षिणीमन्त्रसाधननिरूपणं नाम षडशीतितमोऽध्यायः ओम्